गीता एकादशोऽध्यायः श्रीभगवानुवाच देहान्तर्गतिम् तस्य परलोकगतिम् तथा वक्ष्यामि नृपशार्दूलमत्तशृणु समाहितः उक्तम् पीतम् यदस्यत्र तद्रसादामबन्दनम् स्तूलदेहस्य लिङ्गस्य तेन जीवनदारणम् यादिनाचर्यावापि पीड्यते चाटरोणलः लेष्मणा तेन भुक्तान्नम् पीतम् पानभचत्यलम् भुक्तपीतरसाभावादाशु चुष्यन्ति धातवः भुक्तपीतरसेनैव देहम् डिम्पन्ति वायवः समीकरोति यस्मात्तत् समानो वायुरुच्यते तदानीम् तत् रसाभावात् आमबन्दनहानितः परिपक्वरसत्वेन यथा गौरवतः फलम् स्वयमेव पतत्याशु तथा लिङ्गम् तत्तस्थानादपाकृष्य कृषिकाणाम् च वासनाः आध्यात्मिकाधिभूतानि हृत्पद्मे च एकताम् गतः तदा ऊर्ध्वकप्राणवायुः संयुक्तो नववायुभिः ऊर्ध्व उज्वासी भवत्येष तता तेनैकताम् गतः चक्षुषो वा तमुहूर्णो वा नाडीमार्गम् समाश्रितः विद्याकर्मसमायुक्तो वासनाभिश्च संयुतः समाश्रित्य विज्ञानात्मोपसर्पति यता कुम्भो नियमानो देशाद्देशान्तरम् प्रती कपूर्ण एव सर्वत्र स आकाशोऽपि तत्र तु घटाकाशाख्यताम् याति तद्वद् लिङ्गम् परात्मनः पुनर्देहान्तरम् याति यथा कर्मानुसारतः आमोक्षात्सञ्चरत्येवम् मत्स्य कूलद्वयम् यता पापभोगाय चेद्गच्छेत् यमदूतैरधिष्ठितः यातनादेहमाश्रित्य नरका नैव केवलम् इष्टापूर्तादिकर्माणि योऽनुतिष्ठति सर्वदा पितृलोकम् व्रजत्येश धूममाश्रित्य बर्हिषः धूमात् रात्रिम् ततः कृष्णपक्षम् तस्माच्च दक्षिणम् अयनम् च ततो लोकम् चन्द्रलोके दिव्यदेहम् प्राप्य तत्र चन्द्रमसाोऽसौ यावत्कर्मफलम् वसेत् तथैव कर्म, कर्म शेषेण यतेतम् पुनराव्रजेत् अपुर्विहाय जीवत्वम् आसाद्य आकाशमेति सः आकाशाद्वायुमागत्य वायोऽरम्भो व्रजत्यथ अद्यो मेघम् समासाद्य तथो वृष्टिर्भवेदसो ततो, ततो दान्यानि भक्ष्याणि जायते कर्मचोदितः योनिमन्ये प्रपद्यन्ते शरीरत्वाय देहिनः मुक्तिमन्ये नु संयान्ति यताकर्म यथा श्रुतम् ततो अन्नत्वं समासाद्य पितृव्याम् उच्यते परम् ततः शुक्रं रजश्चैव भूत्वा गर्भो विजायते ततः कर्मानुसारेण भवे स्त्रीपुन्नपुंसकः एवम् जीवगतिः प्रोक्ता मुक्तिम् तस्य वदामि यस्तु शान्त्यादियुक्तः सन् सदा विद्यारतो भवेत् स देवयानीन ब्रह्मलोक अवधिम् नरः अर्चिर्भूत्वा दिनम् प्राप्य शुक्लपक्षम् अतो व्रजेत। उत्तरायणमासाद्य संवत्सरम् अतो व्रजेत। आदित्यचन्द्रलोकौ तु विद्युल्लोकमतः अतदिव्यः अथ दिव्यः पुमान् कच्चित् ब्रह्मलोकादिहैः दिव्ये वपुषि सन्धाय जीवम् एवम् नयत्यसौ ब्रह्मलोके दिव्यदेहे उक्त्वा भोगान् यथेप्सितान् तत्र उषित्वा चिरं कालम् ब्रह्मणा सहमुच्यते शुद्धब्रह्मरतो यस्तु न स यात्येव कुत्रचित् तस्य प्राणा विलीयन्ते जले सैन्दव किल्यवत् स्वप्नदृष्टा यथा सृष्टिः प्रबुद्धस्य विलीयते ब्रह्मज्ञानवतस्तद्वत् विलीयन्ते तदैवते। ते विद्याकर्मविहीनो यः तृतीयं स्थानमेति सः उक्त्वा च नरकान् घोरान् महारौरवरौरवान् पश्चात्प्राक्तनशेषेण क्षुद्रजन्तुर्भवेदसौ यूकामशकदंशादि जन्मासौ लभते भूमि एवं जीवगतिप्रोक्ता किमन्यत् श्रोतुमिच्छसि श्रीराम उवाच भगवन् यत्त्वया प्रोक्तम् फलम् तद् ज्ञानकर्मणोः ब्रह्मलोके चन्द्रलोके उङ्क्ते भोगान् इति प्रभो गन्धर्वादिषु लोकेषु कथम् भोगः समीरितः देवत्वं प्राप्नुयात् कश्चित् कश्चिदिन्द्रत्वम् एति च एतत्कर्मफलम् वास्तु विद्याफलम् अथापि वा तद्ब्रूहि तत गिरिजाकान्त तत तत्र मे संशयो महा श्रीभगवानुवाच तद्विद्याकर्मणोरेव अनुसारेण फलं भवेत् उवाच सुन्दरशूरो नारोगो फलवान् भवेत् सप्तद्दीपाम् वसुपतीम् भुङ्क्ते निष्कण्टकम् यदि स प्रोक्तो मानुषानन्दः तस्माशतगुणो मतः मनुष्यः तपसा युक्तो गन्धर्वो जायते स्यतु देव गन्धर्वाणाम् न एवम् शतगुणानन्द उत्तरोत्तरतो भवेत् पितॄणाम् चिरलोकानाम् आजानसुरसम्प्रदा देवतानाम् अतेन्द्रस्य पुरोत्तद्वत् प्रजापतेः ब्रह्मणश्च एवमानन्दः पुरस्तात् उत्तरोत्तरः ज्ञानादिक्यात् सुखादिक्यम् नान्यदस्ति सुरालये रोत्रियो वृजिनो अकामहतो यच्च द्विजो भवेत् तस्याप्येवम् समाख्याता आनन्दाश्च उत्तरोत्तरम् आत्मज्ञानात् परम् नास्ति तस्माद्दशरथात्मज ब्राह्मणः कर्मभिर्नैव वर्धते नैव हीयते न लिप्यते पादकेन कर्मणा ज्ञानवान्यदि तस्मात्सर्वाधिको विप्रो ज्ञानवानेव जायते ज्ञात्वा यः कुरुते कर्म तस्याक्षय्यफलं भवेत् यत्फलं लभते मर्त्यः कोटिब्राह्मणभोजनैः तत्फलं समवाप्नोति ज्ञानिनं यस्तु भोजयेत् ज्ञानवन्तं द्विजं यस्तु दुषते च न राधमः म्रियते यस्मादीश्वर एव सः उपासको न यात्येव यस्मात्पुनर्धो गतिम् उपासनरतो भूत्वा तस्मात् आश्वसुखी नृप इति श्रीपद्मपुराणे शिवगीतासु उपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे शिवराघवसंवादे जीवगत्यादिण नाम एकाशोध्याय